देवासुरविमर्देशु जिघ्नदा नित्यमानिनां प्रसह्य हन्ता रौद्राणामसुराणां बलीयसाम् उत्सिक्त बलनाशाय तु महात्मना पक्षयेश एष समुद्दिष्ठो महेन्द्रस्य सहायवान् विहितपूर्वमेवात्र ब्रह्मणा लोकधारिणा इत्येते करय प्रोक्ता इरावत्या निबोधत सूर्यस्याण्डकपाले द्वेषमानीयतु भौवनः हस्ताभ्यां परिगृह्याथ साम्ना प्रस्तूयमाने तु सद्य सम्प्रायच्छदिरावत्यै पुत्रार्थं सदु भवनः इरावत्यासुतो यस्मातस्मादैरावधस्मृतः देवराजोपवाह्यत्वात्प्रथमः समदङ्गराडस्वेदाभ्राभश्चदुर्दन्धश्रीमानैरावधो गजः अञ्चनस्यैकमूलस्य सुवर्णाभस्य हस्तिनः षड्दन्तस्य हि भद्रस्य ह्यौपवाह्यस्य वै बलेः तस्य पुत्रोऽजनश्चैव सुप्रतीकश्च वामनः पद्मश्चैव चतुर्धोऽभूधस्तिनी चाभ्रमुस्तथा दिग्गजान् बलिनश्चैवाभ्रमोर्ज नयदाप्सुगान् भद्रं मृगं च मन्दं च सङ्गीर्णं चतुरः सुदान् सङ्गीर्णो ह्यञ्जनो योऽसावौपवाह्यो यमस्य सः भद्रो यः सुप्रतीकस्तु हस्तिस्सह्यपां पद्मो मन्दस्तु यो गौरोद्वीपो ह्यैलविलस्य च मृगश्यामस्तु यो हस्ति चौपवाह्यः स पावके हे पद्मोत्तमः गुल्मो गजो वादगजो गजः चपलोरिष्टः सञ्ज्ञश्च तस्याष्टौ जज्ञिरे सुधा उदग्रभावेनोपेदा जायन्ते तस्य चान्वये श्वेतबालनखाः पिङ्गा वर्षावन्दो मदङ्गजाः सामजांस्तु प्रवक्ष्यामि नागानन्यानविक्रमाद कपिलपुण्डरीकश्च सुनामानौ रथन्तराद जादौ नाम्नाश्रुतौ ताभ्यां सुप्रतीकप्रमर्दनौ शूरास्थूलशिरो दन्ता शुद्धबालनखास्तथा बलिनः सङ्गिताश्चैव स्मृतास्तद्वंसिनो गजाः पुष्पदन्तो बृहत् साम्नषड् ताम्रपर्णश्च तत्पुत्राः शङ्खचारिविषाणिनः अन्वये चास्य जायन्ते लम्बोष्ठाश्चारुदर्शनाः श्यामत्वाग्रसनाशुण्डा नागाः पीनायदा ननाः वाम देवो जनश्याम श्याम्नो जज्ञेधवामनः भार्या च इवाङ्गना तस्य चण्डाश्चारु शिरोग्रीवाग्व्यूढो रस्कास्तरस्विनः नीचैर्बद्धाकुले तस्य जायन्ते निबिडा गजाः वैरूप्याः साम्नः तस्य प्रहारी सम्पादि प्रांशवो दीर्घताल्वोष्ठा सुविभक्तशिरोरुहाकाः जायन्ते मृदुसम्भोगा वंशे तस्य मदङ्गजाः अञ्चनादञ्चनसाम्नो विजज्ञे जाञ्चनावधी सुधौ जादौ तयोश्चापि माधिपुरुषौ स्मृतौ महाविभक्तशिरःसस्निग्धीमोदसन्निभाः सुदर्शनास्तुवर्ष्माणः पद्माभा परिमण्डलाः सूराधिनायतमुखा गजास्तस्यान्वये भवन् यज्ञे चान्द्रमसः साम्नः कुमोद कुमुदद्युतिः पिङ्गलायां सुदौ तस्य महापद्मौर्मिमालिनौ शैलजीमोदसङ्घासान् सुबुद्धान् बलिनो वरान् हस्ति युद्धप्रियान्नागान् विद्धितस्य कुलोद्भवान् वेदान् देवासुरे युद्धे जयार्थं जगृहुसुराः कृतार्थैश्च विसृष्टास्ते पूर्वोक्ता प्रयुर्दिशः एतेषां चान्वये जादान्विनीतां स्त्रिदशा दधुः अंगाय लोमपादाय सूत्रकाराय वैद्विवाद् द्विपान् द्विरधो रदनद्वाभ्याम् अस्ति हस्तात्करात्करी वारुणो वारणाद्दन्ती दन्ताभ्यां गर्जनाद्गजः कुञ्चर् कुञ्जचारित्वागो न गम्यमस्य यत् मत्तं यादिमादङ्गो द्विपो द्वाभ्यां पिबन् स्मृतः सामज सामजादत्वादिति सामजा निर्वचनक्रमः येषां जिह्वापरावृत्तिर्ह्य उक्ता वैश्चाग्निशापजा बलस्या वबोधोयो यो याचैषां गूढमुष्कथा उभयं दन्दिना सुरशापजं देवदानगन्धर्वपिशाचो रगरक्षसा कन्यासुजादादिग्नागैर्नानासत्त्वास्ततो गजाः सम्बोधिश्च प्रसूदिश्च नामनिर्वचनं तथा ये तद्गजानं राजा स कौशिक्याह्याः समुद्रा तु गङ्गायश्च यदुत्तरम् अञ्जनस्यैकमूलस्य विज्ञेयं गहनं तु तद् उत्तरं चैव विध्यस्य गङ्गाया दक्षिणं च यद् गङ्गोद्भेदे सखेरुभ्य सुप्रदीकस्य पत्तनम् अपरेणोत्कलं चैव कावेरीभ्यश्च पश्चिमम् एकशूकात्मजस्यै दद्वामनस्य वनं स्मृतम् अपरेण तु लौहित्य मा सिंहोः पश्चिमेन तु पद्मस्यैतद्वनं प्रोक्तमनुपर्वतमेव दद भूदा विजज्ञे भूदांस्तु रुद्रस्यानुचरानिह स्थूलान् कृशांश्च दीर्घांश्च वामनान् ह्रस्वकान् समान् लम्बकर्णान् प्रलम्बौष्ठान् लम्बजिह्वांस्तनूदरान् एकनेत्रान्विरूपांश्च लम्बस्फुक्स्थूलपिण्डिकान् स कृष्णगौरान् नीलांश्च श्वेतान्वै लोहिताननान् बभ्रून्वै शबलान् धूम्रान् विकद्रून्नासमारुणान् मुञ्ज केशान् दृष्टरोम्ण सर्वयज्ञोपवीदिनः बहुशीर्षान्विपादांश्चह्येकशीर्षानशीर्षकान् चण्डांश्च विकटांश्चैव निर्मितांश्च द्विजिह्वकान् मुण्डांश्च जटिलांश्चैव कुब्जान् वक््रान् सवामनान् सरश्रेष्ठसमुद्राद्रिनदी पुलिनसेविनः एककर्णान् महाकर्णान् चङ्घुकर्णानकर्णकान् ृणो नखि नश्चैव निर्दन्दांश्च विजिह्वकान् एकहस्तान् द्विहस्तांश्च त्रिहस्तांश्चाप्यहस्तकान् एकपादान् द्विपादांश्च त्रिपादान् बहुपादकान् महायोगान् महासत्वान् सुमनस्कान् महाबलान् सर्वत्र गात्रप्रतिघाधब्रह्मज्ञान् कामरूपिणः घोरान् क्रूरांश्च मेध्यांश्च मध्यमेध्यान् सुधार्मिकान् कूडदन्तान् महाजिह्वान्विकेशान् विकृताननान् हस्तांश्च मुखादांश्च शिरोदांश्च कपालिनः धन्विनोमुद्गरधरा न शिशूलधरांस्तधा दिग्वाससश्चित्रवेषांश्चित्रमाल्यानुलेपनान् अन्नादान् पिशिदांश्च सुरपां सोमपांस्तथा केचित् सन्ध्याचरा खोरः केचित् निशाचराः परत्वेन भवं देवं सर्वे ते गदमानसाः नैषां भार्यास्ति पुत्रा वा सर्वे ते ह्यूर्ध्वरेतसः शतं तानि सहस्राणि भूतानामात्मयोगिनां भव पारिषदास्ते वै सर्वे भूताः प्रकीर्तिताः कपिशायाश्च कूष्माण्डा चज्ञरे पुनः मिथुन पिशाचाश वर्णेन कपिशे तो कपीश्वात्शाचास्ते शे च पिशिता शना युग्मा षोशाद्या नामतस्तान् प्रवक्ष्यामि रूपतश्च तदन्वयं चगलश्चगला तथा दुष्पूरः पुरणा चैव शुची शुचीमुखस्तथा विपादश्च विपादी च कुम्भपात्रश्च कुम्भी च प्रदुन्तश्च प्रदुतिका उपवीरश्च वीरा च्युलूखल उलूखली अकर्मखकर्मकी च कुषण्ठश्च कुषण्ठिका पाणिपात्रपाणिपात्री पां स्युः पां स्युमती तथा निदुन्दश्च निदुन्दीज निपुनो निपुनी तथा बालाधः केषणादी तथा षोडशानां पिशाजानां गणाः प्रोक्तास्तु षोडश अजामुखा वक्रमुखाः पूरणस्कन्धिनस्तथा विपादाङ्गारिकाश्चैव कुम्भपात्राः प्रतुन्तकाः उपवीरो लूखलिका अर्कमर्काः कुशण्डिकाः पां च वः पाणिपत्राश्च नैदुन्ता निपुणास्तथा सुजीमुखोच्छेषणाधा कलान्येदानिषोडश इत्येदास्यभिजादास्तु कूष्माण्डानां प्रकीर्तिताः पिशाचास्ते पिशाच्यस्थाः सकुल्याः सम्प्रजज्ञि बिभत्संविकृताकारं पुत्र पौत्रमनेतकम् अधस्तेषां पिशाचानां लक्षणानि निबोधत सर्वाङ्गकेशा वत्ताक्षादं शृणो नखिनस्तथा तिर्यगङ्गाः पारुषदाः पिशाचास्ते ह्यजामुखाः अकर्णकाह्यरोमाणो वाससश्चर्म वासः कुशण्डिकपि चाचास्ते प्रियभक्षाः समामिषाः वक्राङ्गहस्तापादाश्च वक्रशीलमतास्तथा ज्ञेया वक्राः पिशाचास्ते वक्रगाकामरूपिणः कामरूपिनः सा ह्रस्वकाय शिरो भुजाः नितुन्तकाः पिशाचास्ते तिलभक्षाः प्रिया सृजाः वानराहृदयश्चैव वाचालाः प्लुदगामिनः पिशा चार्कमर्कास्ते वृक्षवासोदनप्रियाः ऊर्ध्वबाहूर्ध्वलोमाण उद्धृताक्षायथालयाः मुञ्जन्ति पांशु मङ्गेभ्यः पिशा चाः पांश वस्तु ते ब्रमरी सन्निभाशुष्का शुष्का सशूलाश्चिरवाससः उपवीराः पिशाचास्ते श्मशनायतनाः सदा निष्टब्धाक्षा महाजिह्वा लेलिहानाह्युलूखलाः उलूखलैराभरण रत्नास्ला पापात्र पिशाचास्ते निसृष्टबिभोजना हस्ुष्रस्थूलशिशो हा। विनपिंडि पिशाचाकुम्भपात्रास्ते अदृष्टान्नानि भुञ्जते सूक्ष्मास्तु रोमाशा पिङ्गा दृष्टा दृष्टाश्चरन्ति ये अयुक्तान् प्रचरन्तीह निपुणास्ते पिशाचकाः आकर्णाधारितास्याश्च लम्बभ्रूस्थूलनासिकाः शून्यागारप्रिया स्थूलाः पिशाचास्ते दुपूरणाः हस्तपादाक्रान्ततुण्डा ह्रस्वकाः क्षुतिदृष्टयः बालादास्ते पिशा च वै सूतिका पृष्टदः पाणिपादाश्च पृष्टदो वादरं विपाद संग्रामे विपादकाः पिशाचास्ते सङ्ग्रामे आण्डपिण्टकाः पिशाचास्कन्धिनस्ते वै अन्य उच्चणादिनः षोडशैदा हि जात्यस्ताः पिशाचानां प्रकीर्तिताः एवं विधान् पिशाचांस्तु दीनान् दृष्ट्वानुकम्पया ब्रह्मादभ्यो वरं प्रादात्कारुण्यादल्पचेतसः अन्तर्धानं प्रजायां हि कामरूपित्वमेव च सन्ध्ये उभे प्रचारं च स्थानान्याजीवमेव च गृहाणि भग्नानि शून्यान्यल्पजलानि च विध्वस्तानि च यानिस्युरनाचारोशितानिच, स्युरनाचारोषितानि च असमृष्टोपलिप्तानि संस्कारैर्वर्जितानि दो राजमार्गोपरध्याश्च निष्कुटाश्चत्वराणि च द्वाराण्यट्टालकांश्चैव पधो नद्योधतीर्थानि चैत्यवृक्षा महापथम् पिशाचा विनिविष्टा वैष्ठानेष्वेदेषु सर्वशः अधार्मिको जनस्तेषा माजीवो विहितसुरैः वर्णाश्रमात्सङ्करिकाकारुशिल्पिजनास्तथा प्रकृतोपधिसंधानाश्चोराविश्वासखादिनः यदैरन्यैश्च बहुभिरन्यायोपार्जितैरपि आरभ्यन्ते क्रियायास्तु पिशाचास्तत्र दैवतं मधु मांसोदनैर्दध्नातिलचूर्णैः सुरासवैः धूपैर्हारिद्रकृसरैस्तिलभक्ष गुडौ धनैः कृष्णानि चैव वा सांसि धूपः सुमनमोक्षयः एव शुक्तास्तु बलयस्त्वेषां वै पर्वसन्धिषु पिशाचानामनुज्ञाय ब्रह्म ददौ सर्वभूदपिशाचानां गिरीणां शूलपाणिनां दंष्ट्रात्वजनयत्पुत्रान् सिंहान् व्याघ्रांश्च भामिनी द्वीपिनश्च सुतास्तस्याश्वापदाश्चामिशाशिनः ऋषायास्त्वपि कार्ष्ण्ये प्रजासर्गं निबोधत तस्या दुहितरः पञ्चतासां नामानि मे शृणु मीना मीना तथा वृत्ता परिवृत्ता तथैव च अनुवृत्ता च विज्ञेया तासां प्रजाः सहस्रदं श्रावमकरा पाठीनास्तिमिरोहिताः गणो मइनो विस्तीर्ण उच्य से ग्र्च दुर्धाजेयुरा शवस्तथा उग्रश्च शिशुमरा मीनाइता वृत्ता कर्मकारा नईका चलचारिण तथा शङ्खविकाराणि जनयामास नैकशह मण्डूकानां विकाराणि ह्यनुवृत्ताव्यजायद ऐनेयानां विकाराणि ह्यनु शम्बूकानां तथैव च तथा शुक्रिविकार वराडविकृतानि च तथा शङ्खविकाराणि परिवृत्ता व्यजायत कालकण्ठविकाराणि जलूकाविकृतानि च इत्येष हि ऋषा वंशः पञ्चशाखः प्रकीर्तितः तिर्याहेतुकमप्याहो बहुलं वंशविस्तरं संस्वेदचविकाराणि यथा येभ्यो वहन्ति हेदक्लिन्नशरीरेभ्यो योकालिक्षादिका द्विजाः मनुष्यस्वेदमलजा उशना नाम जन्तवः नानापिपीलिकगणाकीडका बहुपादकाः शखोपल विकारा कील चिबुलास्वेद पार्थिवा गण यहां नैका मृगशरीभ्यो जाये जंधव स्वि मक्षिका पिच्छला शास्तापुत् नीला छय मलजा बहुविस्तरा जलजा स्वेदजाश जायंदे चंदस्वे का शाक्रीडानलदा बहु पदका सिंहला रोमलाश्चैव पिच्छिलाक् परिकीर्तिताः जलजस्वेदजस्मृतः शिं बिभ्यो माश्रमुद्गानां जायन्ते कृमयस्तथा बिल्वजं वाम्रपूमेभ्यः फलेभ्यश्चैव जन्तवः मुद्देभ्य फनसे तंडुले तथा कोडर निहिदेभ्यो कोडरशुष्केभ्यो निभ्योति्योपिचाते नि तेभ्य स्र सदा जुरादिभ्यो बिषादिभ्य बहून्यहानि निक्षिप्ते सम्भवन्ति जगोमये जायन्ते कृमयो विप्राक् काष्ठेभ्यश्चापि सर्वशः संस्वेदजाश्च जायन्ते वृश्चिकाशुष्कगोमयात् गोभ्यो हि महिषेभ्यश्च तधान्येभ्यश्च जन्तवः मत्स्यादिश्च विविधा अन्नकूटे विशेषतः वैकारिकाश्च जायन्ते तथा काजकुलानिच च तथन्यानि च सूक्ष्माणि जलौकादीनिजादयः कुररादिभ्य सूक्ष्मा शूकास्तथैव च प्राये विकाराणि जायन्ते जादयोपरेणानुवसन्त्यस्मिन्नुच्छिष्ठोदकर्दमे मशकानां विकाराणि भ्रमराणां तथैव च गोभ्य पुत्तिका सभीये पुत्रिका मणिच्छेद स्मृद व्याला पोध्या परकीर्ति शेरिविकाणी करीशेभ्योमाख्या गणसोमया सो्यष प्राक वशज स्मृता ये चाहिए नैरृता सवास्ते स्मृता उपसर्जगा भूतास्तु यो निजा केजिकेजिदत्पत्ति का स्मृता देवा सर्वे वै विज्ञेुपत्जा केचित् योनिजा केिद्देवा निमितुल लोहमं सरम व्यजाद क्योंपथ्यम चो विज्ञेमरादय श्यामच शबलाश्च लोहिता कृष्ण दुल्लो अंजनाधूम्रृणाश्चो लद्रुका सर्पाण सुरसाजे शनिकृता सर्पाण तक्षको राजा राज चापि वासुक तमो बहुल इत्येषणक्रोधवशान्वयः पुलहस्यात्मजः सर्गस्ताम्रायास्तु निबोधत षट्कन्यास्त्वभिविख्यातास्ताम्रायाश्च विजज्ञिरे गृध्रीभाषीषु की क्रौञ्चीष्ये नीच धृतराष्ट्रिका अरुणस्य च गृध्रेदु वीर्यवन्तौ महाबलौ सम्पातिं च जडायुं च प्रसूदा पक्षिसप्तमौ सम्पातेर्विजया पुत्रा द्विरास्याप्रसहश्च ये चडायुषः पुराः पुत्रा कङ्गगृध्राश्च कर्णिकाः भार्या गरुत्मदश्चैव भासि क्रौञ्ची तथा शुकी धृतराष्ट्री तथा श्येणीतास्वपत्या निवच्मि ते शुकी गरुत्मदः सुशुवे शुषुवेषट्परिश्रुतान् सुखं सुनेत्रं विशिखं सुरूपं सुरसं बलं तेषां पुत्राश्च पौत्राश्च गरुडानां महात्मनां चतुर्दशसहस्राणि पुराणां पन्नगाशिनां पुत्रपौत्र विसर्गा च तेषां वै वंशविस्तरैः व्याप्तानि यानि स्थानानि तानि वक्ष्ये यथा क्रमं शाल्मलिद्वीपमखिलं देवकूटं च पर्वतम् मणिमन्दं च शैलेन्द्रं महस्रशिखरं तथा पर्णमालं सुकेशं च शतशृङ्गं तथा चलं कौररं पञ्चशिखरं हेमकूढं च पर्वतं प्रचण्डवायुप्रजवैर्दीपितैः पद्मरागिभिः भासी शैलशृ व्याता भाषा उलूका काकुक्कुा मयूरा कलबिकाश्च कपोतालविथिरा कुररा सारसा सारसाबका इत्येवमादयोऽन्येऽपि क्रव्यादाये च पक्षिणः धृतराष्ट्री तु हंसाश्च कलहंसांश्च भामिनी चक्रवाकांश्च विहगान् सर्वांश्चैवौदकान् द्विचान् श्येण्यनन्दं विजज्ञेतु पुत्रपौत्रं द्विजोत्तमः गरुडस्यात्मजाप्रोक्ता इरा या शृणुत प्रजाः इरा विजज्ञे कन्या वै तिस्रकमलोचनाः वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः लता चैव लता चैति वीरुधा चैति तत्र लता वनस्पदेर्जज्ञे पुष्पादपि फलावहान् पुष्पैःफलग्रहैर्वृक्षानलता समसूयत गुल्मास्तथा लता वल्ल्यस्त्वभुसारास्तृणजादयः विरुधस्तदपत्यं हि वंशश्चात्र समाप्यदे यदे कश्यपदायादा व्याख्यातास्तानु जङ्गमाः तेषां पुत्राश्च पौत्राश्च यैरिदं सततं जगत् एष सर्गैकदेशस्य कीर्तितो वयवो मया मारीचो न शक्यं व्यासदो वक्तुं वर्षाणां च शतैरपि अदिर्धर्मशीलादु बलशीलादिस्तथा तपःशीलादु सुरभिर्मायाशीला धनुस्तथा गन्धशीला मुनिश्चैव क्रोधाध्यायनशीलिनी गीतशिला शरिष्टादु क्रूरशीला कषा स्मृता क्रोधशीला तथा खधु शुचिशीलिनी वाघशीलादु विनदा ताम्रा वै खादशीलिनी हिरानुग्रहशीलादु श्यनायुर् भक्षणेरता अभवं लोकमातॄणां शीलान्येदानि सर्वशः धर्मतशीलतो बुद्ध्या क्षमया बलरूपतः रजस्तत्त्वतमोद्धिक्ता धार्मिका धार्मिकाश्च वै माधुस्तुल्याभिजाताश्च कश्य पश्यात्मजाः प्रभोः देवतासुरगन्धर्वा यक्षराक्षसपन्नगाः पिशाचाः पशवश्चैव मृगाः पदगविरुधः यस्माद्दाक्षायणिष्वेदे जज्ञिरे मानुषिष्पिह मनुष्यप्रकृतिस्तस्माद्देवादींश्च विजानते यस्माच्च सम्भव कृष्णो देवानां मानुष्येष्विह मन्वन्तरेषु सर्वेषु तस्माच्छ्रेष्ठास्तु मानुषाः धर्मार्थकाममोक्षाणां मानुष्या साधकास्तु तदोर्वाक्स्रोतसस्ते वै उत्पद्यन्ते सुरासुराः जायन्ते कार्यसिद्ध्यर्थं मानुषेषु पुनःपुनः इत्येष वंशप्रभवः प्रसङ्ख्यातस्तु विस्तरात् सुराणामसुराणां च गन्धर्वाप् सरसां यक्षरक्षपिशाचानां सुपर्णो रगपक्षिणां व्यालानां शिखिनां चैव ओषधीनां च सर्वशः कृमिकीटपदङ्गानां क्षुद्राणां जलचारिणां पशूनां ब्राह्मणानां च श्रीमतां पुण्यलक्षणः आयुष्यश्चैव धन्यश्च श्रीमान् हितसुखावहः श्रोतव्यश्चैव सततं ग्राह्यश्चैव न श्रूयतः इमं तु वंशं नियमेन यः पढेन्महात्मनां ब्राह्मणवन्द्यसंसदि अपत्यलाभं लभते पुष्कलं प्रियं धनं प्रेत्यज शोभनां गतिम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे काश्यपेयवर्णनं नाम सप्तमोऽध्यायः ओ